अथ चतुर्विंशोऽध्यायः वैशम्पायनुवाच भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् बुद्धिमस्थाय विपुलां जरासन्धवधेप्सया नायम् पापो मया कृष्णा युक्तस्यादनुरोधितम् एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया यत्ते दैवं परं सत्त्वं यत्सते मातरिश्वनः बलम् भीमजरासन्धे दर्शयाशु तदद्यनः तवैशवध्यो दुर्बुद्धिः जरासंधो महारथः इत्यन्तरिक्षे त्वश्रौषं यदा वायुरपोह्यते गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः बलदेवबलं प्राप्य कोऽन्यो जीवेतमागधात् तदस्य मृत्युर्विहितः त्वद्रुते न महाबला वायं चिन्त्यमहाबाहो जहीमम् अगधाधिपम् एव मुक्तस्तदा भीमो जरासन्धमरिन्दमः उत्क्षिप्य भ्रामयामासा बलवन्तं महाबलः ततस्तु भगवान् कृष्णो जरासन्धजिघांसया भीमसेनं समालोक्य नलं जग्राह जग्राहपाणिना द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति भ्रामयित्वा शतगुणम् जानुभ्याम्भरतर्षभा बभञ्जपृष्ठम् सङ्क्षिप्यान् संक्षिप्या विननाद च करे गृहीत्वा द्वेधा चक्रे महाबलः पुनः सन्धायतु तदा जरासन्धः प्रतापवान् भीमेन च समागम्य बाहुयुद्धं चकारः तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् सर्वलोकक्षयकरं सर्वभूतभयावहम् पुनः कृष्णस्तमिरिणम् द्विधा विच्छिद्य माधवः व्यत्यस्य प्राक्षिपत्तत्तो जरासन्धवधेप्सया भीमसेनस्तदा ज्ञात्वा निर्बिभेद च शुष्कमांसास्थिमेदस्त्वद्भिन्नमस्तिष्कपिण्डकः शवभूतस्तदा राजन् पिण्डीकृत इवाबभौ तस्य निष्पिष्यमाणस्य पाण्डवस्य वित्रे सुर्मागधाः सर्वे स्त्रीणां गर्भाश्च शुश्रूः स्य नादेन जरासन्धस्य चैवः किं नु भिन्नः किं मही इति वैमागधा जज्ञुर्भीमसेनस्य निःस्वनात्